अध्यायम् नयन् एकादशी माहात्म्यम् गोप्य ऊचुः वृषभानुसुदे सुभ्रुसर्वशास्त्रार्थपारगे विडम्बयन्ती त्वम् वाचा वाचं वाचस्पदेर्मुने एकादशी व्रतम् राधे केन केन तद्ब्रूहिणो विशेषेण त्वं साक्षात् ज्ञानशेवधिः श्रीराधोवाच आदौ देवै कृतं गोप्यो वरमेकादशीव्रतं भ्रष्टराज्यस्य लाभार्थं दैत्यानां नाशनाय च वैश्यं तेन पुराराज्ञा कृतमेकादशीव्रतम् स्वपिदुस्तारणार्थाय यमलोकगदस्य च अकस्माल्लुम्पकेनापि ज्ञादित्यक्रेन पापिना एकादशीकृता येन ये राज्यं लेभे स लुम्पकः भद्रावत्यां केतुमादा कृतमेकादशीव्रतं पुत्रहीनेन सद्वाक्यात् पुत्रं ब्राह्मण्यै देवपत्नीभिर्दत्तमेकादशीव्रतं तेन लेभे स्वर्गसौख्यं धनधान्यं च मानुषी पुष्पदन्ती माल्यवन्तौ शक्रशापाशाचतां प्राप्तौ कृतं व्रतं ताभ्यां पुनर्गन्धर्वतां गतौ पुरा श्रीरामचन्द्रेण कृतमेकादशीव्रतम् समुद्रे सेतुबंधा रावण से वहाय चयांज मुत्पन्ना धातृवृक्षतलेकादशी व्रत चक्रुसर्वल्याण हेतव व्रत चकारी द्वाद्या पितृवाक्यपर्शदोषेण मुक्त भूं निर्मलुति गन्धर्वो ललितपत्न्या गदशापात् स रक्षताम् एकादशीव्रतेनापि पुनर्गन्धर्वदां गदः एकादशीव्रतेनापि मान्धा स्वर्गदिं गदः सगरस्य कगुष्ठश्च मुचकुन्दो महामतिः बुन्दुमाराधयश्चान्ये राजानो बहवस्तथा ब्रह्मकपालनिर्मुक्तो बभूव भगवान् भवः दृष्टबुद्धिर्वैश्यपुत्रो ज्ञादित्यक्तो महाखलः एकादशीव्रतं कृत्वा वैकुण्ठं स जगामः राज्ञा रुक्माङ्गदेनापि तेन भूमण्डलं भुक्त्वा वैकुण्डं सपुरो ययौ अम्बरीषेण राज्ञापि कृतमेकादशीव्रतं नास्पृश्यद् ब्रह्मशापोऽपि यो न प्रतिहदक्वचिद हेममाली नाम यक्षकुष्ठी धनदशापदः एकादशीव्रतं कृत्वा चन्द्रतुल्यो बभूवः महीजितानृपेणापि कृतमेकादशीव्रतं तेन पुत्रं शुभं लब्ध्वा वैकुण्ठं स जगामः हरिश्चन्द्रेण रज्ञापि कृतमेकादशीव्रतं तेन लब्ध्वा महिराज्यं वैकुण्ठं स श्रीशोभनो नाम पुराकृते युगे जामाधृतो भून्मुचुकुन्दभूभृतः एकादशीं यः समुपोष्य भारते प्राप्तः सद् दैवै किल गुरुदे कुबेरवद्राज्ञा युतोस्सौ किल एकादशी सर्वतिधीश्वरीं परां जानीध गोप्यो नहि तत्समान्या श्रीनारद उवाच युधिधा मुखा श्रुत्वा यज्ञसीताश्च गोपिकाः एकादशीव्रतं चक्रुर्विधिवत्कृष्णलालसाः एकादशीव्रतेनाभिप्रसन्नश्रीहरिस्वयम् मार्गशीर्षे पूर्णिमायाम् रासम् ताभिश्चकारः इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारद बहुलाश्वसंवादे महात्म्यं नाम नवमोऽध्यायः ओ अध्यायम् टेन् पौलिन्तकोपीकथा श्रीनारद उवाच पुलिन्दकानाम् गोपीनाम् करिष्ये वर्णनम् ह्यदः सर्वपापहरम् पुण्यमद्भुतम् भक्तिवर्धनम् पुलिन्ता उद्भटा के जे द्विम् ध्याद्रिवनवासिनः विलुम्पदो राजवस्सु दीनानाम्ना कदाचन कुपितस्तेषु बलवान् विन्ध्यदेशाधिपो बलि अक्षौहिणीभ्याम् तान् सर्वान् पुलिन्दान् सरुरोदः युयोद्धुस्तेऽपि यु खड्गैश्च कुन्थैः शूलैः परश्वधैः शक्त्याष्टिभिर्भृशुण्डिभिः शर्हैः कदिनानि च पत्रं ते प्रेषयाम सुकंसाय यदु भूभृदे कंसप्रणोदितो दैत्यप्रलम्बो बलवांस्तदा योजनद्वयमुच्चाङ्गं कालमेकसमद्युदिं का किरीडकुण्डलधरं सर्वपाहारवि सर्पहारविभूषितम् पादय शृङ्खलायुक्तं गदा पाणिं कृदान्तवद ललज्जिह्वं खोररूपं पादयन्तं गिरीन्दुमान् कम्पयन्तं भुवं वेगात् प्रलम्बं युद्धदुर्मदं दृष्ट्वा प्रधर्षितो राजा ससैन्यो रणमण्डलं त्यक्त्वा दुद्रावसखसा सिंहं वीक्ष्य गजो प्रलम्बस्तान् समानीय मधुरामाय यौ पुनः पुलिन्दास्तेऽपि कंसस्य भृत्यत्वम् समुपागताः सकुटुम्भा कामगिरौवासम् चक्रोर्निबेश्वर गृहेषु सञ्जाता श्रीरामस्य वरात्पराध पुलिन्द्यकन्यकादिव्यारूपिण्यश्रीरिवार्जिताः तद्दर्शनस्मररुजपुलुन्द्य प्रेम विह्वला श्रीमत्पादरजो धृत्वा ध्यायन्त्यस्तमहर्निशम् ताश्चाभिराशे सम्प्राप्ता श्रीकृष्णम् परमेश्वरम् परिपूर्णतमम् साक्षाद् गोलोकाधिपतिम् प्रभुम् श्रीकृष्णचरणाम् भोजरजो देवै सुदुर्लभम् अहोभाग्यं पुलिन्दीनां तासां प्राप्तं विशेषतः यः पारमेष्ट्यमखिलं न महेन्द्रधिष्ण्यं नो सार्वभौममनिशं न रसाधिपत्यं नो योगसिद्धिमभितो न पुनर्भवं वा वाञ्चत्यलं परमपादरजसभक्तः निष्किञ्चन स्वकृतकर्मफलैर्विराग यत्तत्पदम् हरिजनामुनयो महान्तः भक्त्याजुषन्धिहरिवादरजप्रसक्ता अन्ये वदन्दिनः सुखम् किल नैरपेक्ष्यम् इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे पुलिन्दकोपाख्यानम् नाम दशमोऽध्यायः ओ अध्यायम् इलेवन् कृष्णसखीगणोपाख्यानम् श्रीनारद उवाच अन्यासाम् चैव गोपीनाम् वर्णनम् शृणु मैथिल सर्वपापहरम् पुण्यम् हरिभक्तिविवर्धनम् निधिविन्मार्गदशुक्लपतङ्गो दिव्यवाहनः गोपेष्टश्च व्रजे राजन् जाता षड् वृषभानवः तेषाम् गृहेषु सञ्जाता लक्ष्मीपदिवरात् प्रजाः रमा वैकुण्ठवासिन्यश्रीसख्योऽपि समुद्रजाः ऊर्ध्वम् वैकुण्ठवासिन्यस्तथाजिदपदाश्रिताः श्रीलोकाचलवासिन्यश्रीसख्योऽपि समुद्रजाः चिन्तयन्त्यः सदा श्रीमद्गोविन्दचरणाम्बुजम् श्रीकृष्णस्य प्रसादार्थम् ताभिर्माघव्रतम् कृदन् माघस्य शुक्लपञ्चम्याम् वसन्तादौ हरिस्वयम् तासाम् प्रेमपरीक्षार्थम् कृष्णो वै तद्गृहान् गतः व्याक्रचर्माम्बरं बिभ्रञ्जडामुकुटमुण्डितः विभूदिदुःसरोवेणुं वादयन् मोहयन् जगद तासां विधिषु सम्प्राप्तिं वीक्ष्य गोप्योऽपि सर्वतः आययोर्दर्शनं कर्तुं मोहिताः प्रेमविह्वलाः अतीवसुन्दरं दृष्ट्वा योगिनं गोपकन्यकाः ऊजु परस्परं सर्वा प्रेमानन्दसमाकुलाः गोप्य ऊजुः कोयं शिशुर्नन्दसुता कृतिर्वा कस्यापि पुत्रो धनिनो नृपस्य नारी कुवाग्बाण विभिन्नमर्मा जादो विरक्तो गदकृत्यकर्मा अधिव रम्यः सुकुमारदेहो मनोजवद्विश्वमनोहरोऽयम् अहो कथं जीवति चास्य मादा पिता च भार्या भगिनी विनयिनं एवं ता सर्वतो यूधी भूत्वा सर्वा व्रजाङ्गनाः अप्रच्छुस्तं योगिवरं विस्मिता प्रेमविफुला गोप्य ऊचुः कस्त्वं योगिन्नाम किं ते कुत्र वासस्तु मुने का वृत्तिस्तव कसिद्धिर्वदनो वददां वर सिद्ध उवाच योगेश्वरोऽहं मे वासः सदा मानसरोवरे नाम्ना स्वयं प्रकाशोऽघम् निरन्नस्वबलात् सदा सार्धे परमहंसानां याम्यसं हे व्रजांगनाः भूतं भव्यं वर्धमानं वेत्म्यसम् दिव्यदर्शनः उच्चाटनम् मरणं च मोहनं स्तम्भनं तथा जानामि मन्त्रविद्याभिः वशीकरणमेव च गोप्य ऊचुः यदि जानासि योग्यं स्त्वम् वार्ताम् कालत्रयोद्भवाम् वर्तदेनो मनसि वद तर्हि महामदे सिद्ध उवाच भवतीनाम् च कर्णान्ते कथनीयमिदम् वजः युष्मादाज्ञया वावक्ष्ये सर्वेषाम् शृण्वदामिह गोप्य ऊचुः सत्यं योगेश्वरोऽसि त्वं त्रिकालज्ञो न संशयः वशीकरणमन्त्रेण सद्य पठनमात्रतः यदि श्रोत्रैव चायादिचिन्तितो योऽस्ति वै मुनि तदा मन्यामहे त्वाम् प्रवरं परं सिद्ध उवाच दुर्लभो दुर्गडो भावो युष्माभिर्गदिदस्त्रियः तथाप्यहं करिष्यामि वाक्यं न चलदे सदा निमील यद नेत्राणिमाचजं कुरुत स्त्रियः भविष्यदिनसन्देहो युष्माकं कार्यमेव च श्रीनारद उवाच तथेदि मीलिताक्षीषु गोपीषु भगवान् हरिः विहाय तद्योगिरूपं बभौ श्रीनन्दनन्दनः नेत्राण्युन्मील्य ददृश्युःसानन्दं नन्दनन्दनं विस्मितास्तत्प्रभावाज्ञा हर्षिदा मोहमागताः माघमासे महारासे पुण्ये वृन्दावने वने ताभिः सार्धम् अरीरे मे सुरीभिः सुरराडिव यदि श्री नारद रमा माधुर्यखण्डे श्रीनारद श्री रमावैकुण्डश्वेतद्वीपोर्ध्ववैकुण्डाजिदपदश्रीलोकाचलवासिनी श्रीसखीनामुपाख्यानम् नाम एकादशोध्यायः ओम् अध्यायम् 12 होली उत्सवम् श्रीनारद उवाच इदं मया ते कथितं गोपीनां चरितं शुभम् अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल विधिहोत्रोऽग्निभुक् साम्बश्रीकरो गोपतिश्रुतः प्रजेशः उपनंद व्रजे भवा धनवंदोवंदवंदो बहुश्रुता शीलागुणसंपन्ना सर्वे दानपरायण तृहेशु संजाता कन्या देवाक्यद का दिव्या अ दिव्या गुणवृत्तयः भूमिगोप्यश्च सञ्जाता पुण्यैर्नानाविधैः कृतैः राधिका सहचर्यस्ताः सख्यो भूवन् विदेहराट ये कदा मानिं राधां ताः सर्वा व्रजगोपिकाः हरिं प्राप्तं होलिकाया महोत्सवे गोप्य ऊचुः रम्भोरुचन्द्रवदने मधुमानिनीशे राधे वजसुलितं ललने शृणुत्वं श्रीहोलिहोत्सवविहारमलं विधाधुमायादिदे पुरवने व्रजभूषणोऽयम् श्रीयववनोन्मद नीलालपालिकलिदां सकु कुपोलगोलः सत्पीतकञ्चुकखनान्तमशेषमारात् आचालयन्ध्वनिमिदा स्वपदारुणेन बालार्कमौलिविमलाङ्गदहारमुद्यद्विद्युत्क्षिपन् मकरकुण्डलमादधानः पीदाम्बरेण जयदिद्युदिमण्डलोऽसौ भूमण्डले सधनुषेवखनो दिविस्थः आबीरकुङ्कुमरसैश्च विलिप्तदेहो हस्ते दनव गृहीदनवसेचन यन्द्र आराध प्रक्ष्यंस्तवाशुसखिवाडमधि वराधे त्वद्रासरङ्गरसकैलिरतस्थितः सः निर्गच्छ फाल्गुनमिषेण विहायमानं दातव्यमद्य च यश किल होलिकायै कर्तव्यमाशुनिजमन्दिरङ्गवारिपाडीरपङ्गमकरन्दचयं च तूर्णम् उत्तिष्ठ गच्छ विदिदम् प्रवाहे श्रीनारद उवाच अधमानवदी राधामानं त्यक्त्वा समुद्धिता सखि सङ्घै परिवृदा प्रकर्तुम् होलिकोत्सवम् श्रीखण्डा गुरुकस्तूरी हरिद्रा कुङ्गुमद्रवैः पूरिताभिर्धृतिभिश्च संयुक्तास्ता व्रजाङ्गनाः रक वस्त्राकु रक्तहस्ता पी दस्त्रको जूपुरखलायंद्यो का होंगे काली का से सन्धि आबीराुनचूर्ण ना मुष्टिस्ता इतस् क्यारुणम भूमि दिगंदं चांबरं तथा कोडिशकोडिशस्तत्र स्फुरन्त्याम्बी स्फुरन्त्याबीरमुष्टयः सुगन्धारुणचूर्णानां कोडिशकोडिशस्तथा सर्वतो जगृहु कृष्णं पराभ्यां व्रजगोपिकाः यथा मेकं च दाभिन्यः सन्धायां श्रावणस्य च तन्मुखं च विलिम्बन्ध्यो धा वीरारुणमुष्टिभिः कुङ्गुमाक्दकृदीभिस्तम् आर्द्रीचक्रुर्विधानतः भगवनपि तत्रैव यावतीर्व्रजयोषितः धृत्वा रूपाणि तावन्दि विजहारनृपेश्वर राधया शुशुभे तत्र होलिकाया महोत्सवे वर्षा सन्ध्या क्षणे कृष्णसौदामिन्या कनो यथा कृष्णोऽपि तद्धस्तकृताक्तनेत्रो ताभ्यो ययौनन्दगृहम् परेषु देवेषु वर्षत्सु च पुष्पवर्षम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे होलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नामद्वादशोऽध्यायः ओ अध्यायम् तर्टीन् देवनारीरूपा सखीगणोपाख्यानं श्रीनारद उवाच अथ देवाङ्गनानां च गोपीनां वर्णनं शृणु चतुष्पदार्थं नृणां भक्तिवर्धनमुत्तमं बभूवमालवेदेशे गोपोनन्दो दिवस्पतिः भार्यासहस्रसंयुक्तो धनवान् नीतिमान् परः तीर्थयात्राप्रसङ्गेन मधुरायां समागतः नन्दराजं व्रजाधीशं श्रुत्वा श्रीगोकुलं ययौ मिलित्वा गोपराजं स दृष्ट्वा वृन्दावनश्रियं नन्दराजाज्ञया तत्र वासं चक्रे महामनाः योजनद्वयमाश्रित्यघोषं चक्रे गवां पुनः मुदं प्रापव्रजे राज्यादिभिः स दिवस्पतिः तस्य देवलवाक्येन सर्वदेवजनस्त्रियः जाधाकन्यामहादिव्या ज्वलदग्निशिखोपमाः श्रीकृष्णं सुन्दरं दृष्ट्वा मोहिदा कन्यकाश्च ताः दामोदरस्य प्राप्त्यर्थं दामोदरस्य प्राप्त्यर्थं चक्रुर्मा क्रतं परम् अर्धोदयेर्केयमुनां नित्यं स्नात्वा व्रजाङ्गनाः उच्चैर्जगु कृष्णलीलां प्रेमानन्दसमाकुलाः तासां प्रसन्न श्रीकृष्णोवरं ब्रूहीत्युवाचः ता ऊचुस्तम्भरं नत्वा कृताञ्जलि पुटाशनैः गोप्य ऊचुः योगीश्वराणाम् किल दुर्लभं त्वं सर्वेश्वरकारणकारणोऽसि त्वं नेत्रगामी भवतात्सधानो वंशीधरो मन्मथ मन्मथाङ्गः तथास्तु चोक्ताहरिरादिदेवस्तासान्धुयो दर्शनमाददान भूयास्सदादे हृदिनेत्रमार्गे तथा स आहूतयिवाशुचित्ते परिपूर्णतमः साक्षात् श्रीकृष्णो नान्य एव हि एककार्यार्थमागत्य कोटिकार्यं चकारः परिकरीकृतपीदपडं हरिं शिखिकिरीडनती कृतकन्धरं लकुडवेणुकरं चलकुण्डलम् पडुतरं न भजे भक्त्याैव वश्यो हरिरादिदेवः सदा प्रमाणं किल चात्र गोप्यभा साङ्ख्यं च योगं न कृतं कदाभिप्रेम्णैव यस्य प्रकृतिम् गदा स्युः युधि श्रीगर्गसंहिताय माधुर्यखण्डे श्रीनारद बहुलाश्वसंवादे देवजनस्त्री उपाख्यानम नाम त्रयोदशोऽध्यायः ओ अध्यायम् फोर्टीन् जालन्धरी सखी गणोपाख्यानम् श्रीनारद उवाच जालन्धरीणाम् गोपीनाम् जन्मानि शृणु मैथिल कर्माणि च महाराज पापघ्नानि नृणां सदा राजन्सप्तनदीतीरे रङ्गपत्तनमुत्तमम् सर्वसम्पद्युदम् दीर्घम् योजनद्वयवर्दुलम् रङ्गो जिस्तत्र गोपालपुराधीशो महाबलः भूभृदे अयिमानामर्बुदशतं वार्षिकं स ददौ सदा एकदा तत्र वर्षान्धे व्यदीदे किल मैथिलवार्षिकं तु करं राज्ञे न ददौ स मधोत्कटः न चायदे रङ्गोजौ गोपनायके वीरा दशसहस्राणि धृतराष्ट्रप्रणोदिता सा बद्ध्वादं दामभिर्गोपमा जग्मुस्ते गजह्वयं कतिवर्षाणि रङ्गो जिक्कारागारे स्थितो भवद सन्निरुद्धस्ताण्डितोऽपि लोभी भीरुर्न चाभवद न सदनं स धनम् किञ्चित् धृतराष्ट्राय भूभृते कदाचित् स पलायितः रात्रौ रङ्गपुरम् प्रागात् रङ्गो जिद्गोपनायकः पुनस्तम् हि समाहर्तुम् धृतराष्ट्रप्रणोदिदम् अक्षौहिणीत्रयम् राजन् समर्धबलवाहनम् तेन सार्धं स बाणौकैस्तीक्ष्णधारैः स्फुरत्प्रभैः युयुधे दंशिदो युद्धे धनुष्टङ्कारयन्मुहुः शत्रुभिश्चिन्नकवचिह्न चिह्नधन्वा सदस्वकः पुरमेत्यमृद्धं चक्रे रङ्गो जिपतिभिर्दिनैः अनाथशरणं चेच्छन् कंसाय यदूभूभृदे दूतं स्वं प्रेषयामास रङ्गोजिर्भयपीडितः दूतस्तु मधुरामेत्य सभां गत्वा नदाननः कृदाञ्चलिश्चौग्रसे निम् नत्वा प्राक् गिरार्द्रया रङ्गोजिनामा नृपरङ्गपत्तने गोपोस्तिनिदिज्ञ वरपुराधिपः स्वशत्रुः समृद्धपुरो महाधिभृत् अलम्बनाथशरणं गतस्तव त्वं दीनदुःखार्तिहरो महीतले भौम दी भौमादिसङ्गीतगुणो महाबलः सुरासुरानुद्भटभूमिपालकान् विजित्य युद्धे सुरराडिवस्थितः चन्द्रं चकोरश्च रविं कुश्येशयो यथा शरच्चीकरमेव चादकः क्षुद्धातुरोन्नं च जलं तृषातुरः स्मरत्य स्वौ शत्रुभये तथा द्धम् श्रुत्वा वचस्तस्य कंसो वै दीनवत्सलह दैत्यकोटिसमयुक्तो मनो गन्तुम् समादथे गोमूत्रचयसिन्धूरकस्तूरीपत्रभृन्मुखम् विन्द्याद्रिसदृशम् श्यामम् मद निर्सरसंयूतम् पादेजशृङ्खलाजालम् नदन्तम् कनवद्भृश्यम् द्विपङ्कुबलया पीडं समारुह्य मदोत्कडः चानूरमुष्टिकाद्यैश्च केशिव्योमवृषासुरैः सहसादं शिदकं सप्रययौ रङ्गपत्तनं यदूनां च कुरूणां च बलयोस्तु परस्परं बाणै खड्गैः त्रिशूलैश्च घोरं युद्धं बभूवः बाणान्धकारे संजादे कंसो महागदाम् विवेश विवेशकुरु सेनासु वने वैश्वानरो यथा कांश्चिद्वीरान् सकवचान् गदया वज्रकल्पया पादयामास भूपृष्ठे वज्रेणेन्द्रो यद्धा गिरिम् रद्धान् ममर्धबादाभ्याम् पार्ष्णिखादेन कोडकान् गजे गजम् ताडयित्वा गजान् प्रोन्नीय चाङ्घ्रिषु स्कन्धयो कक्षयोर्धृत्वा सनीडान् रत्नकम्बलान् कांश्चित् बलात् भ्रमयित्वा चिक्षेपगने बलीम् गजान् चुण्डासु चोन्नीय लोलखण्डाः समावृतान् चिक्षेपसम्मुखे राजन्मृधेव व्योमासुरो बली रधान गृहीत्वा साश्वांश्च शृङ्गाभं भ्रामयन्मुहुः चिक्षेप दिक्षु बलवान दैत्यो दुष्टो वृषा सुरभा बलात् पश्चिमपादाभ्यां वीरा नश्वानितस्ततः पादयामास राजेन्द्रकेशीदैत्याधिपो बली एवम् भयङ्करं युद्धं दृष्ट्वा वै कुरुसैनिकाः शेषा भयादुरा वीराजग्मुस्तेऽभि दिशो दश रङ्गो जिं सकुटुम्बं तं नीत्वा मधुरां प्रययौ वीरो नादयन् दुन्दुभीञ्चनैः श्रुत्वा पराजयं स्वस्य कौरवाक्रोधमूर्च्छिताः दैत्यानां समयं दृष्ट्वा सर्वे वै मौनमास्थिताः पुरं बर्हिषदं नाम व्रजसीम निमनोहरं रङ्गो जये ददौ कंसो दैत्यानामधिपो बली सं चकार तत्रैव रङ्गो जिर्गोपनायकः बभूवुस्तस्य बाल्यासुजालन्धर्यो हरेर्वराद परिणीता गोपजनैरूपयौवनभूषिताः जारधर्मेण सुस्नेहं श्रीकृष्णेता प्रचक्रिरे चैत्रमासे महारासे ताभिसाहं हरिस्वयम् पुण्ये वृन्दावने रम्ये रेमे वृन्दावनेश्वरः इति श्रीगार्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे जालन्तर्युपाख्यानम् नाम चतुर्दशोऽध्यायः ओम् अध्यायम् फिफ्टीन् नागेन्द्रकण्ठा सही गणोपाख्यानम् श्रीनारद उवाच व्रजेशोऽणपुराधीशो गोपो नन्दो धनी महान् भार्या पञ्चसहस्राणि बभूवुस्तस्य मैथिला जादामत्स्यवरातास्तु समुद्रे गोपकन्यकाः तदान्याश्च त्रिवाचापि पृथिव्या दोहनानृप बर्हिष्मधिपुरं ध्यो या जादा जाधिस्मराः पराः तथान्यात् सरसो भूवन वरा नारायणस्य च तथा सुदलवासिन्यो वामनस्य वरा स्त्रियः तथा नागेन्द्रकन्याश्च जादा ताभ्यो दुर्वाससा दत्तम् कृष्णा तेन सम्पूज्य यमुनाम्बव्रीरे श्रीपदिम्बरं ये कदा श्रीहरिस्ताभिर्वृन्दारण्ये मनोहरे यमुनानिकडे दिव्ये पुंस्कोकिलतरुव्रजे मधुपध्वनि संयुक्ते कूजत्कोकिलसारसे मधुमासे मन्दवायौ वसन्त वसन्तलतिकावृते दोलोत्सवं समारेभे हरिर्मदनमोहनः कदम्बवृक्षे रखसि कल्पवृक्षे मनोहरे कालिन्दी जलकल्लोलकोलाकलसमाकुले तद्दोला तद्दोलाकेलनं चकृता गोप्यप्रेमविह्वलाः राधया कीर्तिसुधया चन्द्रकोटिप्रकाशया रेजे वृंदावने कृष्णो यधारत्या रधीश्वरः एवं प्राप्ताश्च या सर्वा श्रीकृष्णं नन्दनन्दनं परिपूर्णतमं साक्षात् तासां किं वर्ण्यते तपसा नागेन्द्रकन्या या सर्वा चैत्रमासे मनोहरे बलभद्रं हरिं प्राप्ता कृष्णातीरे तु ता शुभा इदं मया ते कथित गोपीनां चरितं शुभं सर्वपापहरं पुण्यं किं भूय श्रोतुमिच्छति श्रीबहुलाश्व उवाच यमुनायाश्च पञ्चाङ्गं दत्तम् दुर्वाससा मुनि गोपीभ्यो येन गोविन्दप्राप्तस्तद्ब्रूहि माम् प्रभो श्रीनारद उवाच अत्रैवोदाहरन्दीममितिहासम् पुरातनम् यस्य श्रवणमात्रेण पापहानिपरा भवेद अयोध्याधिपति श्रीमान् मान्धादा राजसप्तमः मृगया वितरन् प्राप्तः सौभरेराश्रमम् शुभम् वृन्दावने स्थितं साक्षात् कृष्णातीरे मनोहरे नत्वा जामादरम् राजा सौभरिम् प्राह मानदवः मां धातो वाचा भगवन् सर्ववित् साक्षात्त्वम् परावरवित्तमः लोकानाम् तमः सोऽन्धानाम् दिव्यसूर्य इवापरः इह लोके भवेद्राज्यम् सर्वसिद्धिसमन्वितम् अमुत्र कृष्णसारूप्यम् येन स्यात् तद्वदाशु मे सौभरिरुवाच यमुनायाश्च या पञ्चाङ्गम् वदिष्यामि तवाग्रतः सर्वसिद्धिकरम् शश्वत्कृष्णसारूप्य तारकम् तावद्राज्यप्रदम् चात्र श्रीकृष्णवशकारकम् कवचं चस्तवम् नाम्नम् सहस्रम् पटलम् तथा पद्धतिम् सूर्यवंशेन्द्रपञ्चाङ्गानि विदुर्बुधाः इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे नागेन्द्रकन्योपाख्यानम् नाम पञ्च दशोऽध्यायः ओ अध्यायम् सिक्स्टीन् यमुनाकवचम् मान्धादोवाच यमुना ह्य कृष्णराज्ञा कवचम् सर्वतोमलम् देहिमह्यमहाभाग धारयिष्याम्यहम् सदा सौभरिरुवाच यमुनायाश्च या कवचम् सर्वरक्षाकरम् नृणां चतुष्पदार्थदम् साक्षात् शृणु राजन्महामदे कृष्णां चतुर्भुजाम् श्यामाम् पुण्डरीकदलेक्षणाम् रथस्ताम् सुन्दरीम् ध्यात्वा धारयेत् कवचम् तदः स्नादपूर्वमुखो मौनि कृदसन्ध्यकुशासने कृश्यैर्बद्धशिखो विप्रपठेद्वै स्वस्तिकाशनः यमुना मे शिरःपादु कृष्णानेत्रत्वयं सदा श्यामाभ्रूभङ्गदेशं च नासिकां नागवासिनि कपोलौ पादु मे साक्षात् परमानन्दरूपिणी कृष्णवामां स्वसम्भुदा पादुकर्णद्वयं मम अधरौ पादु कालिन्दी चिबुकं सूर्यकन्यका यमस्व साकन्धरां च हृदयं मे महानदी कृष्णप्रिया पादु मे भुजद्वयं श्रोणीतडं च शुश्रोणी कडिं चारुदर्शना ऊरुद्वयं तु उरुद्वयं दुरम्भोरुर्जानुनी त्वं कृभेदिनी गुल्फौ रासेश्वरी पादु पादौ पापप्रहारिणि अन्तर्बहिरथश्चोर्ध्वं दिशासु विदिशासु च समन्तात्पादु जगदपरिपूर्णतमप्रिया इदं श्रियमुनाश्च कवचं दशवारम् पठेद्भक्त्या निर्धनो धनवान् भवेद् तृभिर्मासै पठेद्धीमान् ब्रह्मचारीमिदाशनः सर्वराज्याधिपत्यम् च प्राप्यदे नात्र संशयः दशोत्तरशतम् नित्यम् त्रुमासावधिभक्तितः यः पठेत् प्रयतो भूत्वा तस्य किङ्किन्न जायते यः पठेत् प्रादरुद्धाय सर्वतीर्थफलम् अन्दे अन्ते व्रजेत्परम् धाम गोलोकम् योगिदुर्लभम् यदि श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे श्रीयमुनाकमच्चम् नाम षोडशोऽध्यायः ओम् अध्यायम् 17 यमुनास्तवम् मान्थादो वाचा यमुनायास्तवम् दिव्यम् सर्वसिद्धिकरम् परम् सौभरे मुनिशार्दूल वद माम् कृपया त्वरम् श्रीसौभरिरुवाच मार्ताण्डकन्यकायास्तुस्तवम् शृणु महामदे सर्वसिद्धिकरम् भूमौ चादुर्वर्ग्यफलप्रदम् कृष्ण वामांसभूदायै कृष्णायै सददम् नमः नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः यपाप पङ्गाम्बुकलङ्क कुत्सितः कामी कुधि सत्सुकलिं करोति हि वृन्दावनं ताम ददादि तस्मै नदन्मिलिन्दादिकलिन्दनन्दिनी कृष्णे साक्षात्कृष्णरूपा त्वमेव वेगावर्ते वर्ददेमस्य रूपी ऊर्मावूर्मौ कूर्मरूपी सदाते बिन्दौ बिन्दौ भाति गोविन्ददेवः वन्दे लीलावधिं त्वां सखनखननिभां कृष्ण वा मां सभूदां वेगं वै, वै रजाख्यं सकलजलचयं खण्डयन्तीं बलात् स्वाद चित्वा ब्रह्माण्डमाराद सुरनगरनगान् गण्डशैलादिदुर्गान् भित्त्वा भूखण्डमध्ये तडनिधृतवदी मूर्मिमालां प्रयान्तीं दिव्यं कौ नामधेयं श्रुतमधयमुने दण्ड यत्यद्रितुल्यम् पापव्यूहम् त्वखण्डम् वसतु मम गिरमण्डले तुक्षणम् तद दण्ड्यांश्चाकार्य दण्ड्या सकृतपि वजसा खण्डितम् यद्गृहीतम् भ्रा दुर्मार्दण्डसूनो रटधिबुरि प्रचण्डोदिदण्डः रज्जुवा विषयान्धकूपधरणे पापाघुदर्वीकरी वेण्युष्णिक् च विराजमूर्तिचिरसो मालास्ति वा सुन्दरी धन्यम् यत्रादि नृणां गोलोगे प्यदि लोकेऽप्यधिदुर्भट् दुर्लभादिशुभगा पाद्यद्वितीया नदी गोपी गोकुल कोपकेलिकलिदे कालिन्दीकृष्णप्रभे त्वत्कुले जल लोलगोलविचलत्कल्लोलकोलाहलः त्वत्कान्तार कुदूलालिकुलकृत्सङ्कारके काकुलः कूजत् कोकिलसङ्गुलो व्रजलदा लङ्गारभृत्पादु मां भवन्ति जिह्वास्तनुरोमतुल्या गिरो यदा भूसिकदा इवाशु तदप्यलं यान्दिन दे गुणान्तं सन्दो महान्ध किल शेषतुल्याः कलिन्दगिरिनन्दिनीस्तव उषस्ययं वा श्रुतश्च यदि पाठितो भुवितनोदि सन्मङ्गलं जनोऽपि यदि धारयत् किल यो नित्यशः सयादि परमं पदं निज निकुञ्चलीलावृतम् इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारद बहुलाश्वसंवादे प्रियमुनास्तवो मुनास्तवो नामधातोवाच कृष्णा पटलं पुण्यं कामदं पद्धतिं तथा पदमां मुनिशार्दूलत्वं साक्षात् ज्ञानशेवधिः सौभरिरुवाच पटलम् पद्धतिं यमुनाया महामदे कृत्वा श्रुत्वाध जप्त्वा वा जीवन्मुक्तो भवेन्नरः प्रणवम् पूर्वमुद्धृत्य मायाबीजम् तदः परम् रमाबीजम् तद कृत्वा कालिन्दीदि च देवी पदमदः परम् नमः पश्चात् संविधार्य जपेन्मन्त्रमिदम् नरः जप्त्वैपादशलक्षाणि मन्त्रसिद्धिर्भवेद्भुवि जनै प्रार्थ्याश्च ये कामाः सर्वे प्राप्या स्वतश्च विधाय षोडशदलं पद्मं सिंहासने शुभे कर्णिकायां च कालिन्दीं न्यस्ये श्रीकृष्णसंयुधां जाह्नवीं विरजां कृष्णां चन्द्रभागां सरस्वतीं कोमदीं कौशिकीं वेणीं सिन्धुं गोदावरीं तथा वेदस्मृतिं वेत्रवदीं शदध्रुं सरयूं तथा पूजयेन्मानवश्रेष्ठ ऋषिकुल्याम् कगुत्मिनीम् पृथक् पृथक् तद्दलेषु नामोच्चार्यविधानदः वृन्दावनम् गोवर्धनम् वृन्दाम् चतुलसीम् तथा चतुर्दिक्षुविधायासु पूजयेन्नामभिक्पृथक् ॐ नमो भगवत्यै कलिन्दनन्दिन्यै सूर्यकन्यकायै यमभगिन्यै श्रीकृष्णप्रियायै यूधीभूतायै स्वाहा अनेन मन्त्रेण आवाहनादिषोडशोपचारान् समाहित उपाकरेद इत्येव पटलं विद्धि तुभ्यं वक्ष्यामि पद्धतिम् यावत् सम्पूर्णदाम् व्याधिपुरः शरणमेव ब्रह्मचारी जपेन जपेन्मौनव्रदी द्विजः याव भोजीभूमिशायी पत्रभुग्जितमानसः कामम् प्रोथम् तथा लोपम् मोहम् द्वेषम् विसृज्य भक्त्या परमया राजन् देशकः ब्राह्मे मुहूर्ते उद्धाय ध्यात्वा कलिन्दजा अरुणोदयवेलायाम् नद्याम् स्नानम् समाचरेद माध्याह्ने चाभि सन्ध्यायाम् सन्ध्या वन्दन तत्परः सप्तमे नियमे राजन् कालिन्दीतीरमास्थितः दशलक्षम् ब्राह्मणानाम् सपुत्राणाम् महात्मनाम् पूजयित्वा गन्धपुष्पैर्दत्त्वा तेभ्यः सुभोजनम् वस्त्रभूषण सौवर्णपात्राणि प्रस्फुरन्ति च दक्षिणाश्च शुभा दद्यात्तदसिद्धिर्भवेत् खलु इति ते पद्धति प्रोक्ता मया राजन्महामदे कुरुत्व नियमम् सर्वम् किम् भूय श्री इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्री श्रीसौभरि माम् धादृसंवादे पटलपद्धतिवर्णनम्